मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं फोर्टिवन् पुराणसमाप्तिवर्णनम् श्रीगणेशाय नमः शौनक उवाच पुराणेषु महाभाग संशयैर्विविधैः परैः प्राप्तैस्तैः संयुतोहं च संस्थिधक् खेदसंयुदः अन्यस्यैव पुराणस्य संशयाश्रवणेन मे गमिष्यन्ति महाबुद्धे विचार्य इवं स्थितो आन्द्यं मौद्गलकं श्रुत्वा संशया मे गदाः नात्र संशयः एको मे संशयश्चैव हृदि तिष्ठदितं नुद गच्छ पश्चान्निजं स्थानं धन्यं मां कुरु गणेशस्य रहस्यं यज्ञातं व्यासेन धीमता सर्वाधिकं मौद्गलस्थम् महच्चित्रम् परात्परम् तदव्यासेन शास्त्रम् तत्कृतम् भारतकम् परम् धर्मार्थमव्यवस्थानम् ब्रह्मसायुज्यदायकम् तत्रादौ गणनाथस्य पूजनं स्मरणम् कृतम् पश्चाद्गणेश्वरस्यैव वर्णनम् न नकृतं किला। सम्पूर्णे भारते जाते कृतकृत्यो महामुनिः अभवन्नात्र सन्देह किमिदं कौतुकं वद शौनकस्य वच श्रुत्वा सूतः सस्मारतं गुरुं तत्क्षणास्तत्र योगीशो भवद्व्यासः समागतः तं दृष्ट्वा कर्षसंयुक्ता सुदशौनकमुख्यकाः उद्धाय पूज्यते नेमुस्थाप्य प्राञ्चलयो भवन् तदसमीपे संस्थाप्य जगादमुनिसत्तमः व्यासशौनकमुख्यां स्तु ज्ञात्वा सूत्रप्रयोजनम् व्यास उवाच मया शास्त्रं कृतं विप्रभारतं नात्र संशयः तत्रायम् बुद्धिगः साक्षाद्वर्णितो ब्रह्म संज्ञितः सिद्धितो ब्रह्मरूपोऽयं मुख्यं तदेव सम्मदं विकुण्ठादय एवं वैनाशयुक्ताः प्रकीर्तिताः बुद्धि मोहितोऽहं न संशयः गणेशं सर्वभावेन वर्णितुं विस्मृदोभवं भवम् अन्यं ग्रन्थं ततः मुने तत्राकाशभवा वाणी मामुवाच शृणुष्व तत गणेशवर्णनं पूर्णं प्रशस्तं मा कुरुष्व वै मोहनार्थं गणेशेन जनानां रचितं त्विदं मुद्गलं मुनिमुख्यं च त्यक्त्वा सर्वे मुनीन्द्रकाः स्पष्ट ठं गणपतेरूपं वर्णितुं न क्षमा कदा श्रुत्वां नमस्कृत्य संस्थितो मौद्गले रथः अधः संशयहीनस्त्वं मौद्गलं भज गणेशस्य स्वरूपं वर्णितं परम् ब्रह्मणस्परिबोधस्य नात्रसंशयः नात्र संशयः तथापि मोहिताः सर्वे विप्राद्यानगजाननं जानन्ति तादृशं तेषु सिद्धिबुद्धिवरेण ते गणेशवरदानेन भक्र्यैर्मौद्गलकं परम् दृष्ट्वा गणेश्वरं पूर्णं ज्ञास्यन्ते नान्यथा क्वचिद अदो मौद्गलमेकं त्वं भज वैनित्यमादराद कलिदोषेण हीनः सन् सर्वं च लभसे परम् एवमुक्त्वा महायोगी व्यासस्तत्र महामतिः विरराम च तत्रैव धूम्रवर्णस्समाययौ तं दृष्ट्वोद्धायनेमुस्ते गणेशं भक्तिसंयुधाः सम्पूज्य तुष्टुमुस्ते वै गानेशैर्गणपप्रियैः धूम्रवर्णस्सं जगादतुष्ठस्तान् हास्य संयुधः गणनाथस्तु वचनं सुखदायकं धूम्रवर्ण उवाच कले पराक्रमः सर्वो मया सम्पूर्णभावतः खण्डितो मुनिमुख्याश्चाधुना शरदनिर्भयाः एवमुक्त्वा गणाधीशस्तान् गृह्यधरणीतले स्थापयामासधर्मेण युक्तांश्चक्रे स मानवान् जगादमुनिमुख्यां स्तान्मौद्गलं मे रहस्यदं जपध्वं नित्यमानन्दात्तेनाहं वशगो भवे नानेन सदृशं किञ्चित् प्रियं यस्थो योगाकारस्वृक पंच था मे स्व तो मौद्गल प्रकाश्य श्रावण पुराण से पठन न तदर्थत मौद्गल ये जन तत्राहं संस्थितसर्वैर्भक्तिग्रहणलोलुपः ब्राह्मे बुद्धिस्थितं रूपं वर्णितं मे तदंशदः तत्राहं संस्थितश्चैव निर्गुणाकृतिलक्षणः ब्रह्माण्डे प्रणवाकारो नानाखेलसमन्वितः विश्वाकारप्रभावेणांशेन तत्र स्थितो मुदा गणेशे मूर्तिगोहं तु तयो ज्ञानप्रकाशकः गजवक्त्रादिचिह्नैः संयुक्तस्तिष्ठामि सर्वदा अन्येषु च पुराणेषु शिवविष्णुवादिरूपधृक संस्थितस्तत्कलांशेन नानाभेदविहारतः मौद्गले योगरूपोऽहं तिष्ठाम्युपनिषद्रदः सर्वेषां मे स्वरूपाणां योगस्तत्र प्रकीर्तितः तेषां प्रकाशकं पूर्णं तथा योगप्रकाशकम् मौद्गलं मे प्रियं तस्मात्तत्समं नैव विद्यते भक्त्या सम्प्रार्थितोऽहं तु सृष्ट्यादौ मुनिसत्तमाः तदा मया वरो दत्तो भक्ैभक्तिविवर्धनः तदर्थं मौद्गलं पूर्णं रचितं च मया पुरा मुद्गलस्य हृदिक्षिप्तं सर्वसौख्यप्रदायकं मया सौप्रेरितो योगी परं दक्षायमौद्गलं कथयामास सम्पूर्णं पुराणं मे मुदाकृति तदशिवादिभिर्दैवैर्मरीचादिमहर्षिभिः शेषादिभिर्नरैः सर्वैः सेव्यते मे पुराणकम् न मौद्गलं मे यथार्थतः ज्ञायते केनचित् क्वापि पूर्णं सर्वप्रकाशकम् अन्यत्र मे तु वर्णितं पूर्णभावतः तत्रमोहो मोहो भवेन्नूनं सिद्धिबुद्धि कृतः परः सृष्ट्यादौ सिद्धिबुद्धिभ्याम् प्रार्थितोऽहं विशेषदः जगदा मोहनार्थं च ब्रह्मणां केलकारणाद तदा दत्तो मौद्गलं त्यज्य माम् कदा ज्ञास्यन्ति न च विश्वानि तेषु ब्रह्माणि संस्थितम् अदो मां मौद्गले संस्थम् भजध्वं त्वेकचेतसः तेन मे भक्तिसंयुक्ताश्चरिष्यथ निरन्तरम् नानेन सदृशं किञ्चिन्मत्प्राप्तौ साधनं परं सर्वसिद्ध्यर्थमेवं तु ज्ञातव्यं द्विजसत्तमः अस्य श्रवणमात्रेण कृतकृत्यो नरो भवद न शक्यते फलं वक्तुमपारत्वान्मया कदा मौद्गलश्रवणेनैव सन्तुष्टोऽहं महर्षयः दास्यामि सकलभीष्टं मृणुध्वं निर्विशङ्गया शौनकाद्य ऊचुः भक्तिं देहि त्वदीयाम् नौ योगं शान्तिप्रदायकम् यद्यदि च महेनाथ तत्तत्सिद्ध्यतु सर्वदा गणपत्यांश्च नः सर्वान् कुरु त्वम् सर्वदा परान् इमान् वरान् गुणाध्यक्षप्रार्थितान् देवदेहिनः तथेदि तानधोक्त्वा सौ गणेशो ब्रह्मनायकः व्यासादींश्च जगादः सौ वृणुध्वं वाञ्छितान्वरान् तैस्तथैव गणाध्यक्षः प्रार्थितो गणपप्रियैः तथेति ता तानधोक्त्वा च वरान् ब्रूहि महाभागत्वया परम् द्विजेभ्यस्तेन सन्तुष्टो दास्यामि स तद्धा ब्रवीद तथेदि तमधोक्त्वा सौ धूम्रवर्णो गजाननः अन्तर्धाय स्वमात्मानं स्वानन्दस्थो बभूवः सर्वे सन्तुष्टचित्तास्ते स्वं स्वं स्थानं व्ययुस्ततः मौद्गलं तत्समाश्रित्य गणेशमभजन् परम् इमां मुद्गलजां श्लोकैः सहितां वेदबृंहितां त्रयोविंशतिसाहस्रैः सार्धैकशतसंयुतैः अष्टाविंशत्यधिकैश्च अध्यायैश्च चतुश्शतैः कण्ठैश्च नवभिपूर्णां सर्वसिद्धिमयीञ्जिदाम् मुद्गलकथयामास सर्वेषां हितकारणादशब्दब्रह्मरहस्याख्यां साक्षाद् ब्रह्मप्रदायिनीम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योग योगा शास्त्रे योगजिद योगाथास्त्रे दक्षद्गल संवा पुराणसमणनमशोध्याय श्रीगजानपणमस्तवक्र श्री तोंडाद्यष्टमूर्तिधर गणेश प्रसन्न वरदो भव यदि श्रीमुद्गलपुराणे नवमः खण्डः समाप्तः यदि श्रीमुद्गलपुराणं समाप्तम् ओ